नारदपुराणम् उत्तरार्थम् अध्यायम् सवन्ती अथ प्रभासमाहात्म्यम् प्रारभ्यते मोहिन्युवाच प्रभासस्य दुमाहात्म्यम् वदमे द्विजसत्तम यच्छ्रुत्वा कम्प्रसन्नात्मा धन्या त्वत्प्रसादतः वसुरुवाच शृणु देवि प्रवक्ष्यामि प्रभासाख्यं सुपुण्यदं तीर्थं पापहरं नृणां भुक्तिमुक्तिप्रदायकं यस्मिन्नसङ्ख्यतीर्थानि विद्यं ते विधिनं दिनि सोमेशो यत्र विश्वेशो भगवान् गिरिजापतिः स्नात्वा प्रभासके सकेतीर्थे सोमनाथं प्रपूज्य नरो मुक्तिमवाप्नोदि सत्यमे तन्मयोदितम् योजना आम् दशद्वेजप्रभा सपरिमण्डलम् मध्येस्य पीठिका प्रोक्ता पञ्चयोजनविस्तृता गोचर्ममात्रम् तन्मध्ये तीर्थम् कैलासतोऽधिकम् अर्कस्थलम् तत्र पुण्यम् तीर्थमन्यः सुशोभनम् सिद्धेश्वरादिलिङ्गानि यत्र सन्ति सहस्रशः तत्रस्नात्वा स्नात्वा नरो भक्त्या सन्तर्प्यपि हृदेवताः लिङ्गानि पूजयित्वा च यादिरुद्रसलोकताम् अग्नितीर्थम् तधान्यच्च सागरस्य तडे स्थितम् तत्र स्नात्वा नरो देवि वह्निलोकमवाप्नुयात् तत्र देवम् कपर्दीशम् सोप वासः प्रपूज्य शिवलोकमवाप्नोति भुक्त्वा भोगानिहेप्सितान् केदारेशं ततो गत्वा समभ्यर्च्य विधानदः स्वर्गतिं समवाप्नोति विमानेन सुरार्चितः भीमेषं भैरवेश्यं च चण्डीशं भास्करेश्वरम् अङ्गारेश्यम् गुर्वीश्यम् सोमेश्यम् भृगुजेश्वरम् शनिराहुशिखीशांश्च क्रमक्रमाद्गच्छे चतुर्दश भक्त्या पृथक् पृथक् तेषाम् पूजाम् कृत्वा विधानविद शिवसालोक्यमाप्नोति निग्रहानुग्रहे क्षमः सिद्धेश्वरादिपञ्चान्यलिङ्गानि विधिनन्दिनि समर्च्य लभदे सिद्धिमहि कामुष्मिकीं नरः वरारोहामजापालां मङ्गलां ललितेश्वरीं सम्पूज्य क्रमदेश्चैदापिपापो जायते नरः लक्ष्मीश्वरं बाडवेशमर्ध्येशं कामकेश्वरं समभ्यर्च्य नरो भक्त्या साक्षाल्लोके सतां ब्रजेत, गौरी तपोवनं प्राप्य गौरीश्च वरुणेश्वरौ उषेश्वरं च सम्पूज्य नरस्वर्गतिमाप्नुयात् गणेशं च कुमारेशं स्वाक केशकुलेश्वरौ उक्तं च वह्नीष्यं गौतमं दैत्यसूतनं समभ्यर्च्य विधानेन न ना नरो दुर्गतिं व्रजेद चक्रतीर्थं तदः तत्रस्नात्वा तत्र विधानतः गौरीदेवीं समभ्यर्च्य नरोभिलषितं लभेद संनिहत्या क्व तीर्थं प्राप्य तत्र वरानने स्नात्वा सन्तर्प्य देवादीन् सन्निहत्याफलं लभेद अथैकादशलिङ्गानि भूदेशादीनि योर्चयेद सलब्ध्वेहवरान् भोगानन्दे रुद्रपदं व्रजेद आदि देवं समभ्यर्च्य नारायण दर्च्य नरो मोक्षी भवदे विचारणा कार्याचारतच्रधरम प्राप्य पूजे विधान स दुशत्रुं विजिज भोगाचेद साम्पादित्यं तथ प्राप्य स्नात्वा नियमपूर्वकं नीरोगोधनधान्याढ्यो जायते मानवो भुवि तदस्तु मनुजप्राप्य देवीं कण्डकशोधिनीं महिषघ्नीं च सम्पूज्य निर्भयो जायते नरः कपालीशं च कोडीशम् समभ्यर्च्य नरोत्तमः सुसौ भाग्यो भवेदेवम् मध्ययात्राम् समापयेद बालब्रह्माभितम् पश्चात्प्राप्य मर्त्यो जायते भुक्त्रिमुक्तिश्च सर्वदेव प्रपूजितः नरकेशम् तदप्राप्य बलभद्रेशरम प्राच्य जायते भुक् मुक्मा गंगा गणपतिंप्य समभ्यर्च्य विधानद लभदे वाचिता कामिहलोक तदो चोजाबवीं प्राप्य नदी भक्या स स्नात्वा सुरादीनभ्यर्च्य कृतकृत्यो भवेन्नरः पाण्डुकूपे तद स्नात्वा पाण्डवेश्वरमर्चयेद स नरस्वर्गमायादिक्रीडते नन्दनादिषु शतमेधं लक्षमेधं कोडिमेधमनुक्रमाद लिङ्गत्रयम् समभ्यर्च्य मोददे दिवि देववद दुर्वासादित्यागम् दृष्ट्वा सम्पूज्य च विधानतः अश्वमेधस्य यत्नस्य फलम् प्राप्नोत्य संशयम् यादवस्थलमासाद्य वर्षे सम्प्रार्थ्यमानवः लभदेवाञ्चिदाम् सिद्धिम् देवराजेन सत्कृतः हिरण्या सङ्गमे स्नात्वा दध्याध्येम रथं द्विजे शिवमुद्दिश्य यो भक्त्या स लोका न क्षल्लभेद नगरार्कं ततः प्राच्य सूर्यलोकमवाप्नुयाद नगरादित्यपार्श्वे तु बलकृष्णौ सुभद्रिका दृष्ट्वा सम्पूज्य विधिना कृष्णः सायुज्यमाप्नुयाद कुमारिकाम् तदप्राप्य समभ्यर्थ्यविधानभते वाञ्छितान् कामान् जये चक्रम् न संशयः क्षत्रपालम् ततोऽभ्यर्थ्य सर्वान् कामान् च सम्पूज्य सरस्वत्या स्तरे सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते पिङ्गलाख्यां नदीं प्राप्य स्नात्वा तत्र सुरादिकान् सन्दर्प्य श्राद्धकृन्मर्त्यो नेखभूयोऽभिजायते सङ्गमेशं समभ्यर्च्य ननरो दुर्गतिं व्रजेत् सम्प्रार्थ्य शङ्करादित्यं मानवसकलान् कामान् प्राप्नुयान्नात्र संशयः ऋषितीर्थं तद प्राप्य स्नात्वा नियतमानसः ऋषींस्तत्र समभ्यर्थ्य सर्वतीर्थफलं लभेद नन्दादित्यं तद सर्वरो प्राप्यमुच्यते सर्वरोगतः कृतकूपं तद स्नात्वा यादिवं नरः ोपाने नरस्नात्वा देवान् पश्यति मोहिनि वाञ्छितांश्च लभेत् कामान् सत्यं सत्यम् मयोदितम् पर्णादित्यम् नरो दृष्ट्वा नीरोगो भोगवान् भवेद ततोऽन्युमदीम् प्राप्य स्नात्वा तत्र विधानदः सिद्धेश्वरम् समर्च्यात्र अणिमादिकसिद्धिभाक् वाराकस्वामिनं दृष्ट्वा मुच्यते भवसागराद छायालिङ्गं समभ्यर्च्य मुच्यते सर्वपादकैः गुल्पं दृष्ट्वा नरोऽभ्यर्च्य चान्द्रायणफलं लभेद देवीं कनकनन्दां च समभ्यर्च्य नरःसति सर्वान् कामानवाप्नोति देहान्ते स्वर्गतिं लभेत् कुन्दीश्वरं समभ्यर्थ्यमुच्यते सर्वपादकैः गङ्गेश्वरं समभ्यर्थ्य गङ्गायां मनुजप्लुतः त्रिविधेभ्योऽपि पापेभ्यो मुच्यते नात्र संशयः समसोद्भेदके स्नात्वा पिण्डदानं करोति यः दयाकोडि गुणं पुण्यं सा लभेन्नात्र संशयः ततस्तु विद्धीजे गत्वा विदुराश्रममुत्तमं त्रिगं त्रिभुवनेशं च सम्पूज्यात्र सुखी भवेद् मङ्गणेश्वरमभ्यर्च्य लभदे सद्गतिं नरः त्रैपुरम् च त्रिलिङ्गम् दुःप्रार्च्य पापैः प्रमुच्यते शण्डतीर्थम् तदप्राप्य स्नात्वा स्वर्णप्रदो नरः सर्वपापविशुद्धात्मा शैवम् पदमवाप्नुयाद सूर्य प्राच्याम् नरः स्नात्वा वि त्रिलोचने नरस्नात्वा रुद्रलोकमवाप्नुयाद देविकायानुमानाधं समर्च्यमनुजोत्तमः लभते वाञ्छितान् कामान् देहान्ते स्वर्गमाप्नुयाद भूद्वारं तु समभ्यर्च्य लभदे वाञ्छितं फलं शूलस्थाने नमस्कृत्य कविर्भवेद् श्यवनार्कं तथ प्राच्य सर्वकामसमृद्धिमान् श्यवनेशार्चनान्मर्त्य शिवस्यानुचरो भवेद् प्रजापालेशमभ्यर्च्य धनधान्यान्विदो भवेद् बालार्कं निधिं प्राप्नोति ऋषितोयनदीं प्राप्य स्नात्वा तत्र नरशुचिः दत्त्वा सुवर्णं विप्रायमुच्यते सर्वपादकैः सङ्गालेश्वरमभ्यर्च्य रुद्रलोके महीयते नारदादित्यमभ्यर्च्य त्रिकालज्ञानवान् भवेद ततो नारायणं प्रार्थ्य मुक्तिभागी नरो भवेत् सप्तकुण्डोदगि स्नात्वा मूलचण्डीसमर्चयेद सर्वपापविनिर्मुक्तो वाञ्छितार्थं लभेन्नरः विनायकं चतुर्वक्त्रमभ्यर्च्याप्नो दिवामिदं कलम्बेश्वरमभ्यर्च्य धनधान्यसमृद्धिमान् गोपालस्वामी पूजादो गो मान्यवै धनवान् कविः बकुलस्वामीनोऽभ्यर्च नृणां स्वर्गदिदायिनी सम्पूज्य मारुताम् देवीम् सर्वकामफलम् लभेद क्षेमादित्यार्चनान् मर्त्यः क्षेमी सिद्धार्थसत्यभाक उन्नताख्यम् विघ्नराजम् प्राच्य विघ्नैर्न जलस्वामी कालमेखपूजितौ सर्वसिद्धिदौ रुक्मिणी पूजिदा देवी वाञ्जितार्थप्रदा नृणां दौर्वासेशं च पिङ्गेशं प्रार्च्य पापैर्विमुच्य दे भद्राय सङ्गमे नरो भद्राणि पश्यति शङ्खावर्ते नरस्नात्वा सर्वसिद्धीश्वरो भवेद मोक्षतीर्थे नरः स्नात्वा भवेन्मुक्तो भवार्णवाद गोष्पथस्नानमात्रेण सर्वसौख्यमवाप्नुयाद नारायणगृहे गत्वा नरो भूयो न शोचति जालेश्वरार्चना पुंसां सिद्धयास्युरभि श्रादो हुङ्कारकूपे दुर्गभवात्सं न चाप्नुयाद तथा चण्डीशमभ्यर्च्य सर्वतीर्थफलं लभेद् विघ्नेशमाशापुरकं प्रार्च्य विघ्नं न चाप्नुयाद कलाकुण्डाप्लुतो मर्त्यो मुक्तिभागीनसंशयः कपिलशं समभ्यर्च्य कपिलायुधमाप्नुयाद जरद्गवेश्वरं प्रार्च्य जरसनाभिभूयते नलेश्वरार्चको भोगी कर्कोडेशार्चको धनी हाडकेश्वर पूजाद पूर्यन्ते सर्वकामनाः नारदेशार्चको भक्तिं लभेद्विष्णौ च शङ्करे स्वर्गार्हो जाय देभ्यर्च्य देवीं मन्त्रविभूषणम् दुर्गकूडं गणपतिम् पूजयित्वा सुखी भवेत् धनधान्ययुतो भूयात् पूज्ययन् कौरवेश्वरीम् सुपर्णेलाम्भैरवीम् च पूजयित्वा सुखी भवेत् बल्लतीर्थे नरस्नात्वा मुच्यते सर्वकिल्विषैः कर्दमाले नरस्नात्वा स्नात्वा पादकैर्विप्रयुज्यते गुप्तसोमेश्वरं दृष्टा न भूयोऽर्हदि सोचितुं बहुस्वर्णेश्वरं दृष्ट्वा स्वर्गदिं समवाप्नुयाद शृङ्गेश्वरार्चको मर्त्यो ना तीर्थे नारायणे स्नात्वा मार्कण्डेश्वरमभ्यर्च्य दीर्घायुर्जायते नरः तथा कोडीकृते स्नात्वा अभ्यर्च्य कोडीश्वरं सिद्धस्थाने पुनः स्नात्वा तत्र लिङ्गानि पूजयेद् असङ्ख्यातानि यो मर्त्य ससिद्धो जायते भुवि दामोदरगृहं दृष्ट्वा सुख माप्रोत्यमनुत्तमम् वस्त्रापदम् प्रभासस्य नाभिस्थाने स्थिदम् शुभे तत्राभ्यर्च्यम् भवम् साक्षाद्भवेद्भव समस्वयम् दामोदरम् स्वर्णरेखा ब्रह्मकुण्डम् च रैवते कुन्दिश उज्जयन्ते महाप्रभाः मृगीकुण्डम् च सर्वस्वम् क्षेत्रे वस्त्रापधे स्मृतं यदे शुक्रमश देवानभ्यर्च्य यत्मदः पितृन् सन्तर्प्य तो येन सर्वतीर्थफलं लभेद दुन्नाबिले नरस्नात्वा भुक्ति भोगो दिवं व्रजेद् गङ्गेश्वरं ततोऽभ्यर्च्य गङ्गास्नानफलं लभेद गिरौ रैवतके देवि सन्ति तीर्थान्यनेकशः तेषु स्नात्वा नरो भक्त्या ब्रह्म विष्णो महेश्वरान् इन्द्रादिलोकपान् प्राच्य भुक्तिं मुक्तिं च विन्दति एतान्युद्देश्य तस्तीर्थान्युक्तानि तव सुन्दरी अवान्तराण्यनम् तानि तानि वक्तुं नशक्यदे शक्यते ये कैकस्यापि तीर्थस्य सन्धि विस्तरतः कथाः अत प्रभासजं नप्रभाससमं प्रभाससमं तीर्थं त्रिशुलोकेषु मोहिनि यत्र विमनुजस्वर्गिं नास्पर्धते शुभे हात्म्यम् च प्रभासस्य लिखर्तते गृहे यत्र तत्र न भीदि स्यात् भूतचौराहिशत्रुजा यशृणोदि नरो भक्त्या श्रावयेद्वासमाहितः प्रभासतीर्थमाहात्म्यम् सोऽपि सद्गतिमाप्नुयात् इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे प्रभासतीर्थमाहात्म्यम् नाम सप्ततितमोऽध्यायः इति प्रभासक्षेत्रमाहात्म्यम् समाप्तम् ओम।